अथ षण्णवतितमः सर्गः ताम् तदादर्शयित्वा तु मैथिलीम् गिरिनिम्नगाम् निषसादगिरिप्रस्थे सीताम् मांसेन चन्दयन् इदम् मेध्यमिदम् स्वादुनिष्टप्तमिदमग्निना एवमास्ते स धर्मात्मा सीतया तथा तत्रा सतस्तस्य भरतस्योपयायिनः सैन्यरेणुश्च शब्दश्च प्रादुरास्ताम् नभःस्पृशौ एतस्मिन्नन्तरेऽत्रस्ताः शब्देन महता ततः अर्दिता यूथपा मत्ताः स यूथा दुद्रुगुर्दिशः सतम् सैन्यसमुद्धूतम् शब्दम् शुश्रावराघवः तांश्च विप्रदृतान् सर्वान् यूथपानम् वैक्षता तांश्च विप्रदृताम् दृष्ट्वा तम् च श्रुत्वा महास्वनम् उवाच रामः सौमित्रिम् लक्ष्मणम् दीप्ततेजसम् हन्त लक्ष्मणपश्येह सुमित्रा सुप्रजास्त्वया भीमस्तनितगम्भीरम् तुमुलश्रूयते स्वनः गजयूथा निवारण्ये महिषा वामहावने मित्रासिता मृगाः सहसा प्रदृता राजा वा राजपुत्रो वा मृगयामटते वने अन्यद्वाश्वापदम् किञ्चित् सौमित्रे ज्ञातुमर्हसि सुदुश्चरोगिरिश्चायम् पक्षिणामपि लक्ष्मणा सर्वमेतद्यथा तत्त्वमभिज्ञातुमिहार्हसि स लक्ष्मणः सन्त्वरितः सालमारुह्य पुष्पितम् प्रेक्षमाणो दिशः सर्वाः पूर्वाम् उदङ्मुखः प्रेक्षमाणो ददर्श महतीम् च मूम् यत्तैर्युक्ताम् पदातिभिः तामश्वरथसम्पूर्णाम् रथध्वज विभूषिताम् शशंससेनाम् रामाय वचनम् चेदमब्रवीत् अग्निम् संशमयत्वार्यः च भजताम् गुहाम् सद्यम् कुरुष्व चा तथा तम् रामः पुरुषव्याघ्रो लक्ष्मणम् प्रत्युवाचः अङ्गावेक्षस्व सौमित्रे कस्ये मन्यसे च मो एवमुक्तस्तु रामेण लक्ष्मणो वाक्यमब्रवीत् विधक्षन्निवताम् सेनाम् ऋषितः पावको यथा सम्पन्नम् राज्यमिच्छंस्तु व्यक्तम् प्राप्याभिषेचनम् आवाम् हन्तुम् समभ्येति कैकेय्या भरतः एष महान् श्रीमान् विटबी सम् प्रकाशते विराजत्युज्ज्वलस्कन्धः कोविदारध्वजो रथे भजन्त्येते यथा काममश्वानारुह्य शीघ्रगान् एते भ्राजन्त्य सम्भ्रष्टा गजानारुह्य सादिनः गृहीतधनुषा वाम् गिरिम् वीरश्रयावहे अथवेहैव तिष्ठावः सन्नद्धा बुद्यता नश्ग्छे कोबिदारध्वजोणे अभी द्रक्ष भरतम यसनम महत्व स्रात सीत मै तथा यज्याच्युत राघव शाश्वतायमीर भरत मध्य एवि भरत वधे दोष नाह पशा राघव पूर्वापकारिण् नह्य धर्मेण युज्यते, पूर्वापक भरत धर्मश्च राघव एक तस्हते मनुषाधिवस सुंदरा अद्ये कैकेयराज्य का मैयाश्ये दुखाता हस्तिव द्रुम कैकेय्या सानुबंधा स बांधवा कलुषेणाद्य महता मेदिनी परिमुच्यताम् अद्येमम् संयतम् क्रोधमसत्कारम् छमानदा मोक्ष्यामि शत्रुसैन्येषु कक्षेष्विव हुताशनम् अद्यैव चित्रकूटस्य काननम् निशितैः शरैः छिन्दम् शत्रुशरीराणि करिष्येषोऽतोक्षितम् शरैर्निर्भिन्नहृदयान् कुञ्जराम्स्तुरगांस्तथा श्वापदाः परिकर्षन्तु नराम् शनिहतान्मया शराणाम् धनुषश्चाहमनृणोऽस्मिन् महावने ससैन्यम् भरतम् हत्वा भविष्यामि संशयः इत्यार्षे श्रीमद् रामायणे आदिकाव्ये अयोध्याकाण्डे षण्णवतितमः